श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धः दशमोऽध्यायः नाहं विशङ्केऽसुरराजभद्रान्न छन्त्र्यक्षशूलान्न यमस्य दण्डान् नान्यर्कसोमान् निरवित्तपासाके शङ्केऽपि सम्ब्रह्मकुलावमानान् तद्ब्रूषसङ्गो जलवन्निगूढविज्ञानविर्योविचरस्य पार योग योगग्रथितानि साधो न न मनसा मनसापि भेतुम् अहं च योगेश्वरमात्मतत्त्वविदा मुनीनां परमं गुरुं वै द्रष्टुं प्रवृत्त किं हारणं तन् साक्षाद्धरिं ज्ञानकलावतीर्णं सा वै भवालोकनिरीक्षणार्थम् अव्यक्तलिङ्गो विचरत्यपिस्मिन् योगेश्वराणां गतिमन्धबुद्धे कथं विचक्षेतगृहानुबन्ध दृष्टाश्रमकर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये यथा सतोदानयनाद्यभावान् समूलयिष्टो व्यवहारमार्ग स्थाल्यग्नितापान् परसोभितापां तत्तापदण्डवो लगर्भरन्धे देहेन्द्रियाश्वासे सन्निकर्षा संसृति पुरुषस्यानुरोधा शास्त्राभिगोप्तापति प्रजानां ज किङ्करो वैनवीं पिनष्टिपृष्टं स्वधर्ममाराधनमच्युतस्य मदीहमानो भुजेहाद्य गोवं तन्मे भवान् नरदेवाभिमानं मदीन तुच्छीकृतसत्तमस्य यथेष्टमैत्रीति समार्तबन्धो यथा तरे सदवध्यानमहं मह न विक्रिया विश्वश्रुहिसखस्य साम्येन विताभिमते विमते नदीमानां स्वकृताध्यमादे नघ्य दूरादपि शूलपाळी इति श्रीमद्भागवते महापुराणे प्रमुशां सहितायां पञ्चमीस्कन्धे